श्रीपरमात्मने नमः कथासरित्सागरः कथापीठम् नाम प्रथमोऽलम्बकः इदम् गुरुगिरीन्द्रजा प्रणयमन्दरान्दोलनात् पुरा किल कथामृतम् हरमुखाम् बुधेरुद्गतम् प्रसह्य रसयन्ति ये धुरं विघ्नलब्धर्धयो धुरम् दधति वैबुधीम् भुवि प्रथमस्तरङ्गः श्रियम् दिशतु वः शम्भो श्यामः कण्ठो पार्वती दृष्टिपाशैरिब विवेष्टितः सन्ध्यानुत्तोत्सवे तारा करेणोद्धूय प्रणम्यवाचम् निःशेष पदार्थो द्योतदीपिकाम् बृहत्कथाया सारस्य सङ्ग्रहम् रचयाम्यहम् आद्यमत्र कथापीठम् ततो लावानको नाम तृतीयोऽलम्बको भवेत् नरवाहनदत्तस्य जननञ्च ततः परम् ततो मदनमञ्चुक ततो रत्नप्रभा नाम लम्बकः सप्तमो भवेत् सूर्यप्रभाभिधानश्च लम्बकश्चादधाष्टमः अलङ्कारवती चाथ ततः शक्तियशा भवेत् वेलालम्बकसञ्ज्ञश्च भवेदेकादशस्ततः शशाङ्कवत्यपि तथा ततस्यान्मन्दिरावती महाभिषेकानुगतस्ततः स्यात् पञ्चलम्बकः ततः सुरतमञ्जर्यप्यथ पद्मावती भवेत् ततो विषमशीलाख्यो लम्बकोष्टादशो भवे यथा मूलम् तथैवैतन्नमनागप्यतिक्रमः ग्रन्थविस्तर सङ्क्षेपमात्रम् भाषा च भिद्यते औचित्यान्वयरक्षा च यथाशक्तिविधीयते कथा रसा विघातेन काव्यांशस्य च योजना वैदध्यख्याति लोभाय मम नैवायमुद्यमः किन्तु नानाकथा जाल स्मृतिसौकर्यसिद्धये अस्ति किन्नरगन्धर्वविद्याधर निषेवितः चक्रवर्ती गिरीन्द्राणाम् किमवानिति विश्रुतः माहात्यमियतीम् भूमिमारूढम् यस्य भूभृताम् यद्भवानी सुता भावम् त्रिजगज्जननी गता उत्तरम् तस्य शिखरम् कैलासाख्यो महागिरिः योजनानाम् सहस्रानि बहून्याक्रम्य तिष्ठति मन्दरो मथितेऽप्यब्धौ न सुधासितताम् गतः अहम् त्वयत्नादितियो हसतिव स्वकान्तिभिः चराचरगुरुस्तत्र निवसत्यम्बिकाः सख गणैर्विद्याधरैर्षिद्धैः श्रव्यमानो महेश्वरः पिङ्गोत्तुङ्गजटा जूट गतो यस्याश्नुते नमः सन्ध्यापि शङ्गपूर्वाद्रिश्रृङ्ग सङ्ग सुखम् शिशि येनान्धकासुरपतेरेकस्यार्पयता हृदि पादनखाग्रप्रतिमाङ्किताः प्रसादप्राप्तचन्द्राद्धा यिब भान्ति सुरासुराः तम् कदाचित् समुत्पन्न विस्रम्भारहसि प्रिया स्तुतिभिस्तोषयामास भवानीपतिमीश्वरम् तस्यास्तुतिभजो हृष्टस्तामङ्कमधिरोप्य सः किम् ते प्रियम् करोमीति बभाषे शशिशेखरः ततः प्रोवाच गिरिजा प्रसन्नोऽसि यदि प्रभो रम्याम् काञ्चित्कथाम् ब्रूहि देवाद्य मम नूतनाम् भूतम् भवद्भविष्यद्वा किम् तत् स्यात् जगति प्रिये भवतीयन्न जानीयादिति सर्वोऽप्युवचताम् ततः सा वल्लभातस्य निर्बन्धमकरोत् प्रभोः प्रियप्रणयहेवा कियतो मानवती मनः ततस्तच्चाटुबुद्ध्यैव तत्प्रभावनिबन्धनाम् तस्याः स्वल्पाम् कथामेवम् शिवः सम्प्रत्यवर्णयत् अस्ति मामीक्षितुम् पूर्वम् ब्रह्मा नारायणस्तथा महीम् भ्रमन्तौ हिमवत्पादमूलमवापतुः ततो ददृशतुस्तत्र ज्वालालिङ्गम् महत्पुरः तस्यान्तमीक्षितुम् प्रायादेकवूर्ध्वमधोपरः अलब्धान्तौ तपोभिर्माम् तोषयामासतुश्च तौ आविर्भूय मया पुत्रो मेऽस्तु भवानिति अपूज्यस्तेन जातोऽसावत्यारोगेण निन्दितः ततो नारायणो देवः सवरं मामयाचत भूयासम् तव शुश्रूषापरोहम् भगवन्निति अतः शरीरभूतोऽसौ मम यो हि नारायणः सा त्वम् शक्तिः शक्तिमतो मम किञ्च मे पूर्वजाया त्वम् इत्युक्तवती शङ्करे कथम् पार्वती प्रत्युवाच ततो पुरा दक्षप्रजापतेः देवित्वं च तधान्याश्च बक्ष्यो जायन्तकन्यकाः समह्यम् भवतीम् प्रादाद्धर्मादिभ्योपराश्च ताः यज्ञे कदाचिदाहूताः तेन जामातरोऽखिलाः वर्जितस्त्वह मे वैकः ततोऽपृच्छत स त्वया कि भर्ता मूताच्यता कपालम भर्ता कथमाताुवाच गिशोत्न सूचिका पापोयमस्मजा किं दे मून कोपा परित्यक्तम् शरीरं तत्प्रियेत्वया त्वया मन्युना नाशितो मया ततो जाता हिमाद्रेस्त्वम् अब्धेश्चन्द्रकला यथा अथ स्मरतुषाराद्रिम् तपोऽर्थमहमागतः शुश्रूषायै ममातिथेः तारकान्तकमत्पुत्र का प्राप्तये प्रहित लब्धावकाशो विध्यन् तत्रदग्धो तत्र दग्धो मनो भव ततस्तीव्रेण तपसा क्रीतोऽहम् धीरया त्वया मया सोढम् तव इत्थम् पूर्वजायात्वं पूर्वजाया त्वम् किमन्यत् इत्युक्त्वा विरते शम्भो देवी कोपाकुलाब्रवीत् धूर्तस्त्वम् न कथाम् हृद्याम् कथयस्यार्थितोऽपि सन् गङ्गाम् वहन्नमन् सन्ध्याम् विदितोऽसि तच्छ्रुत्वा प्रतिपीदे स्या विहिदानुनयोहरः कथाम् कथयितुम् दिव्याम् ततः कोपम् मुमूचसा नेहकैश्चित् प्रवेष्टव्यमित्युक्तेन तया स्वयम् निरुद्धे नन्दिना द्वारे हरो वक्तुम् प्रचक्रमे एकान्तसुखिनो देवा मनुष्य निदुखिता दिव्युष चेषा परे न हिणी इति वर्णयाम्यहम दावुपागम प्रसाद विक शंभो पुष्प्त गणोक न्यषेधि च प्रवेशोऽस्य नन्दिना द्वारितिष्ठता निष्कारणम् ममापीतिकुतूहलात् अलक्षितो योगवशात् प्रविवेशसतत्क्षणात् प्रविष्ट श्रुतवान् सर्वम् वर्ण्यमानम् पिनाकिन विद्याधराणाम् पूर्वं पूर्व चरिताद्भुत श्रुवाथ गई जयाय सौप्यवर्णयत कोहि वि स्त्रीषु शक्नो गूहि सास्म विष्टा गिरीसुताग्रता जगौ जया प्रतीहारी स्त्रीषु वाक्संयमः कुतः ततश्चुकोपगिरिजा नापूर्वम् वर्णितम् त्वया जानाति हि जयाप्येतदिति चेश्वरमभ्यधात् प्रणिधानादध जगादैवमुमापतिः योगी भूत्वा प्रविश्येदं। पुष्पदन्तस्तदाशृणोत् जयायै वर्णितम् तेन कोऽन्यो जानाति हि प्रिये श्रुत्वेत्यानाय यद्देवी पुष्पदन्तमतिक्रुधा मर्त्यो भव विनीतेति विक्वलन्तम् शशापसा माल्यवन्तम् च विज्ञप्तिम् कुर्वाणम् तत्कृते निपत्यपादयोस्ताभ्याम् जयया सह बोधिता शापान्तम् प्रति शर्वाणि शनैर्वचनमब्रवीत् विन्ध्याटव्याम् कुबेरस्य शापात् प्राप्तः पिशाच यक्षः काणभूत्याध्यया स्थितः दृष्ट्वा संस्मरम् जातिम् यदा तस्मै कथामिमाम् पुष्पदन्तप्रवर्तासि तदा शापाद् विमोक्ष्यसे काणभूते कथाम् तु यदा श्रोष्यति माल्यवान् काणभूतौ तदा मुक्ते कथाम् प्रख्याप्य मोक्ष्यते इत्युक्त्वा शैलतनया व्यरम तत्जाव दृष्टन बभूवतु अथ जातु याले गौरी पक्षशर सदय सदया। तौश प्रमथवर कुत्र भु विजा अवदच्चंद्रमौि कौशाबीस्तिया महानगरी तैं सपद्तों वरुचिना प्रि जा अनक्ष मल्यवान नगर वरे सुप्रतिताख्ये सह जा एवम् निवेद्य स विभुः सततानुवृत्त भृत्यावमानन विभावन सानुतापाम् कैलास शैल तट कल्पित कल्पवल्ली इति महाकवि श्री सोमदेव भट्ट विरचिते कथा सरिच्छागरे। कथा प्रथमस्तरङ्गः